अथ द्वादशोऽध्यायः अर्जुन उवाच एवम् सततयुक्ता ये भक्तास्त्वाम् पर्युपासते ये चाप्यक्षरम् अव्यक्तम् तेषाम् के योगवित्तमा मया वेष्य मनोयेमा नित्ययुक्ता उपासते श्रद्धया परयो अनिदेश्यम् अव्यक्तम् पर्योपासते सर्वत्र गम् अचिनोत्यम् च कूटस्थम् अचलम् बुद्धयग ते प्राप्नुवन्ति मामेव सर्व क्लेशोऽधिकतरः केषा अव्यक्ता सत् चेतसा अव्यक्ता हि गतिः र्मा मयि सन्स मत्परा अन योग्याय तुद्धर्ता मृत्यु संसार सादरा भवामी न चिरा पाथ मय्याितेतस मय्येव मनथा मयि बुद्धिम् निवेशया निवसिष्यसि मय्येव अथ ऊर्ध्वम् न संशयत न शक्रोषि मयि स्थिरम् अभ्यासयोगेन ततो मा तदपि अशक्तोऽसि कर्तुम् मद्योगम् आश्रितवा सर्वकर्मफलत्यागम् ततः कुरु यदात्मवा द्वेष्ट सर्वभूतानाम् मैत्रः करुणगेव निर्ममो निरगङ्कारः समदुःखसुखः क्षविः सन्तुष्टः सततम् गी यतात्मा दृढनिश्चयत मय्यपितमनो बुद्धिगी यो मद्भक्तः स प्रियः यस्मातोद्विजते लोको लोकाजते च यः भर्ष्याम ी गतव्यथः सर्वारम्भ परित्या सवे य स मे प्रियः समः शत्रौ च मित्रे च तथा yeah क्तम् पर्योपासते श्रद्धाना मत्परमा त्सदि श्रीमद्भगवद्गीतासु उपनिषत्सु ब्रह्मविद्यायाम् योगशास्त्रे श्रीकृष्णार्जुनसंवादे भक्तियोगो नाम द्वादशोऽध्यायः